गणेशपुराणं क्रीडाखण्डम् अध्ययं हण्ड्रेड् अण्ड् सूत उवाच तदमात्याश्च चत्वारः सोमकान्तं पुरोयुः प्रणिपत्याखिलान् प्रोचुरागतस्ते सुतो नृप सर्ववीरैर्नागरिकैरिन्द्रसुरगणैरिव पृदोहर्षेण शोकेन दृष्ट्वान्यानमेव चेवं निवेदिदो मात्यै सोऽपि शीघ्रं समागताः आबालवनिता वृद्धै सेवकैश्च समन्वितः दृष्ट्वा शोभां विमानस्य सर्व आनन्दनिर्भराः तन्मध्ये सोमकान्तं ते धृष्ट्वा ने मूर्धरातले युक्तं दूदर्गणेशस्य कान्तयाप्यधिकान्तया तद उत्तीर्य यानात् स आलिलिङ्गसुतं मुदा आनन्दाश्रूणि मुञ्जन्तौ सरोमाञ्चावुभावपि विदेहाविव सम् जातौ न किञ्चिदूच दुःक्षणं तदऊचे स्नेहेन वत्सरागतम् मेव नित्यं ध्यायामि सत्पुत्रं वंशभूषणं नत्वया त्वया सदृशं पश्ये पुत्रेषुर्जनवर्तिषु तत सुधर्मासस्नेहा धावमाना सुतं ययौ आलिलिङ्गमुदायुक्दा गलदश्रु उभावपि तदवूजे सुदं माता चिरदृष्टोऽसि बालक न मे सुखं किञ्चिदभुत्तादुत्कण्ठितचेतसः इदानीं ते मुखं दृष्ट्वा सानन्दं मे मनोभवत् वियोगेन ते देखो मम जाधकृशो दृश्यं तत आलिङ्गनं चक्रोर्नागरा नामधारकाः केचित् प्रदक्षिणां नाम चक्रु केचित् पादौ तदा स्पृशन् केचिच्च दर्शनादेव प्रतियाताः पुरं प्रदि तदऊचे नृपः सर्वान् भृगुणानुग्रहान् मम गणेशस्य पुराणं यत्राविधं पावनाशनम् अभवं तेन निष्पापो दिव्यदेहो विमानगः सर्वेषां दर्शनं यादं पुनर्यास्यामि कृपावदा गणेशेन यानं मे प्रेषितं भुवि राज्यं च परिभुक्तं मे स्वेच्छया सम्पदः सुता धाम यास्यामि परमं प्रसादात् भृगुसम्भवाद एवं ते शुश्रुवर्वाणी सोमकान्तसमीरिताम् रुरुदुःसुस्वरं सर्वे पतिता भुवि केचन श्रेणीमुख्यास्ततः प्रोजुः सोमकान्तं कृपानिधिं नो विना जगदीपालकथं यास्यसि धामत प्राणां सर्वे यास्यामोऽप्यनुते नृप हत्या त्वन्मस्तके राजन् सर्वेषां नो भविष्यति न न न न द्रक्ष्यामस्तं गुणेश्वरं तव प्रसादाद्देवस्य यास्यामो लोकमुत्तमं न सुखं किञ्चिदायुनाशो वृथात्र हि अस्माकं न भवेत् किञ्चित् साधनं धामसाधनं तदो वदमकण्ठो जनकं वाक्यमादृतः कथं त्यक्त्वार्भगं ताद यासि गजाननम् गजाननं मम राज्येन को हे तव वत्सरम् पालिदं राज्यमखिलं नेच्छेदानीं ममापि च शपथस्त तथा राजन्नदो नेतुं सोमकांत सोमकान्त उवाच सर्वेषामेव सन्द्रष्टुमिच्छा देवपदाम्बुजम् अपं च परवानत्र कथं कार्यं मया जनाः भवत्स्नेहेन शोचामि पुत्रस्नेहाद्विशेषतः अद एवोर्ध्वगं यानमुत्तार्य द्रष्टुमागतः सुद उवाच तदशोचत्सु लोकेषु सोमकान्ते रुदत्यपि पुत्रे जदेवदूतानां दयाप्रादुरभूतदा ते ऊजुसोमकान्तं तं धन्यो राजन्यतो जनाः त्वयि सङ्कल्पितप्राणा जगदीश्वरे अद गृहीत्वैव यामशीघ्रं गजाननम् राजो वाचा यदि सर्वापुरी सर्वा तीर्तिदृढ़ मम भविष्य रे नान्य भविष्य सूत उवाच युक्त पुराण से गणेशभव पूज्य हस्ते जले नैषा ददौराज तो ये हस्ते गदे लोका निपुण्यमूर्त आलवनिता वृद्धा ुरियानुतम गणेशे दूदास्तो गुरूर्धद तद के जिन्नराप यैर्नापि च जलं करे ते पुनर्नगरे यादाशस्यं दाशं सुशेषितं जनं तदो ददृशिरे सर्वे ऊर्ध्वगं नगरं बहु ऊजुः परस्परं शेषाद्रव्यलाभेन तोषिणः नानाव्यवसायरता बभूवोर् कष्टमानसाः कांश्चित् पलायनपरान्धुधा दण्डप्रहारिणः बलां गृहीत्वा प्राक्षिपन्यानमध्येदि कौदुकाद नानामिषेण जक्मुर्ये ंस्तथैव निचिक्षिपुः उपविष्टा मध्यदेशे राजपत्नीसुधादयः अमात्याः परिदो लोका नागराविशुः सुखम् मयूरेश मयूरेश जय त्वमिति ेव वाद्येषु नृत्यत्यप्सरसां प्रदिनादेन गर्जन्ति मण्डलानि दिशामपि अतिवेगेन ते प्राप्ता गणेशस्य पदं शुभं सुषमां परिपश्यन्तो विस्मयेनाब्रुवन्निति अहो महत्पुण्यमस्य येन दृष्टो गजाननः समीपदां ययुः सर्वे राजा सायुज्यमाप सूत सुत उवाच एवं वक्कथिताभिप्रा गणेशस्य पुराणना कथाः सर्वजनस्यापि श्रवणात् पावनाशनि शृणुध्वं देवदूदेभ्यो विमाने पृष्टवान्नपः तत्सर्वं भवतां विप्रा कथयामि कथानकम् इति श्रीगणेशपुराणे क्रीडाखण्डे सोमकान्तस्य देवपदप्राप्तिवर्णनं नाम